अथर्ग्वेदे सप्तमाष्टके अष्टमोऽध्यायः ओ प्रमादिज्रे प्रयुजोजनानाम्बहाविष्मभूषणमन्तरेण विश्वे देवासोऽधमावरक्षन् दुःशासुरा गादिघोष आसीत् सम्मातप्यभितः सपत्नीरिवपर्षवः निवाधते अमतिर्मग्नता च सुरे वीयते मतिः मूषो नशिष्णा व्यतन्ति माध्यस्तोतारम् ते शतक्रतो सकृत्सुनो मघवन्निन्द्रमृणयाथापिते मनो भव पुरुश्रवणमावृणिराजा नन्त्रा सदस्य मम् मम यस्य मा हरितो रथे सहस्रदक्षिणे यस्य प्रस्वारसो गिर उपमश्रवसः पितुः क्षेत्रम् न रण्मूचुषेः अधिपुत्रोपमश्रवोनपान्मित्रातिचेरिः वितुष्टेः अस्मिवन्दिता यदीशीलीयामृताः नामुत वामर्त्याः नाम् जीवेदि न ना देवा नामदिऊनतम् शतात्माः जनजीवते तथा विवा आवृते पा मा आवृहतो मा आदयन्ति प्रवातेजा इरिणे व्रतानाः सोमस्येवमौजभतस्य भक्षो विभेदको भी जाग्रगर्मह्यमच्छान् न मामिमेथ न जिहीर एषा शिवासखिभ्य उत मह्यमासीत् अक्षस्याह मे एव परस्य हेतोरनूरतामपदायामरोधम् द्वेष्टिश्रूरपजायारुणद्धिननाथितो विन्दते मर्डितारम् अश्वस्ये भजरतो वस्न्यस्य नाहम् विन्दामि किवस्य भोगम् अन्ये धायाम् परिमृतम् यस्य यस्या कृतद्वेदनेवाज्या अक्षः पिता माता भ्रातर एनमाहुर्नजा आनीमोदयता बद्धवेदम् यदा दीध्येन तविषाण्येभिः पराजद्भ्यो बहि येतृषिभ्यः निताश्च बभ्रवो वाचवक्रतम् एमीने एनान्निष्कृतञ्जारिणी इव सभा मे एकितव पृच्छमा नो जेष्यामीति तन्वा आशुषु अक्षासो अस्य वितिरन्ति कामम् प्रतिदेनेतधतः आकृतानि अक्षास इदम् कुशिनो ओनितोदिनो ओनि कृत्वा नस्तपनास्तापयिष्णवाः कुमारदे एष्णादयतः पुनर्हणो मध्वा संवृक्ताः कितपस्य बर्हणाः त्रिपञ्चाशक्रियेणतिमुनात एषाम् देव इव सविता सत्यधर्मा उग्रस्य चिन्मन्यवेनानमन्ते राजा आचितेभ्यो नम इति कृणोति नीचावर्तन्त उपरि स्फुरन्त्य हस्तासो हस्तवन्तम् दहन्ते दिव्या अङ्गाः राइविधे न्यप्ताः शीताः सन्तो हृदयम् निर्दहन्ति दाया तप्यते किवस्य हीना माता पुत्रस्य रतः णावादिभ्यर्थनमिच्छमानोऽन्येषामस्तमुपरक्तमेति स्त्रियम् दृष्ट्वा यितवन्ततापान्येषा अञ्जायाम् सुकृतम् च योनिम् पूर्वाह्णे अश्वा अञ्जुयुजे हि बभ्रून्सो अग्नेरन्ते वृषलः पपाद यो वः सेनानीर्महतो गणस्य राजापराधस्य तस्मै कृणो मिनरुणद्भिदशाहम् प्राचेस्तदृतम् वदामि अक्षैर्मा देव्यः कृषिमित्कृशस्वभित्तेरमस्व बहुमन्यमानः तत्र कापकितमतत्र जायातन्मे विचश्चेत विताय वर्यः मित्रम् कृणध्वम् खलु मृगता आ नो मानो घोरेण निवोनुमन्युर्मिषतामरा आदिरन्यो बभ्रूणाम् रसितोऽन्मस्तु अबुद्धभृत्यविन्द्रवन्तो अग्नयोज्योतिर्भरन्त उषसोद्युष्टिषु महेद्या वा आपृथिवी चेततामकोद्या देवानाम वा आवृणीमहे दिवःपृथिव्योरव आवृणीमहे मातॄन्सिन्धून्पर्वताञ्छर्यणावतः अनागास्त्वम् सूर्यमुषा समीमहे भद्रम् सोमः सुभानो अद्याकृणोतु नः द्यावानो अद्य पृथिवी अनागसो महीत्रायेताम् सुविताय मातरा उषा उच्छन्त्यपपाधतामघम् स्वस्या अग्निम् समिधानमीमहे यन्न उस्रा प्रथमासु देव्यम् रेमत्सरिभ्यो आरेमन्युन्दुर्विदत्रस्य धीमहि स्वस्या अग्निम् समिधानमीमहे प्रयासिस्रते सूर्यस्य रश्मिभिर्यो निर्भरन् दे रुषसोऽष्टिषु भद्रानो अद्य श्रवसेऽप्युच्छत स्वस्या अग्निम् समिधानमीमहे अनमेव उषस आचरन्तु न उदग्नयोहताम् ज्योतिषा बृहत् आयुख्यातामश्विनाथो तु दिम् रथम् स्वस्या अग्निम् समिधानमीमहे श्रेष्ठन्नो अद्य सवितर्वरेण्यम् भागमासु वसहिरत्नथा असि रायोजरित्रीन्षणामुपब्रुवे स्वस्या अग्निम् समिधानमीमहे विभर्तुमादर्तस्य प्रवाचनम् देवानाय्यन्मनुष्या आ, देवाना आ, आ, आ, आ, आ अमन्महे विश्वा ऋतुस्रा स्फणुदे ए त्रिसूर्यश्व अग्निम् समिधानमीमहे अद्वेषो अद्य बर्हिषस्तरे मिग्राह्णाय योगे मन्मनः साधयेमहे आदित्यानाम् शर्मणि स्थापुरण्यसि स्वस्या अग्निम् समिधानमीमहे आ नो बर्हि स धमादे बृहद्विदेवाम् एले सातया इन्द्रम् मित्रम् वरुणम् सातये भगम् स्वस्त्या अग्निम् समिधानमीमहे त आदित्या आगता सर्वदा आतये वृधेनो यज्ञमवता सजोषसः बृहस्पतिम् पोषणमश्विनाभगम् स्वस्त्या अग्निम् समिधानमीमहे तन्नो देवा यच्छत सुप्रवाचनम् छद्दिरा आदित्या सुभरम् नृपाय्यम् पश्वे ए तोकायतनयाय जीवसे ए स्वस्या अग्निम् समिधानमीमहे विश्वे ए अद्य मरुतो विश्व विश्वे ए भवन्तु नो देवा अपसारमन्तु विश्वमस्तु अस्मे यन्दे ए वासो वधवाजसाथो यन्त्राय दो वो ओगोपीठेन भयस्य वेदते स्या मित्रो अर्ययमा इन्द्रम् हुवे मरुतः पर्वताम् अप आ आदित्यावा आपृथिवी अपस्वाः द्यौश्च नः पृथिवी चर्पते एतस माधुर्विदत्रादिररतिर्न ईशत तद्देवानामवो अद्यावृणीमहे विश्वस्मान्नो अदितिस्वात्मम् हसो मातामित्रस्य वरुणस्य देवताः स्वर्ज्योतिर्वृकन्नशीमहि तद्देवानामवो अद्यावृणीमहे ग्रावावदन्नपरक्षा अंसि सेध तु दुष्वप्नम् निररतिम् विश्वपत्रिणम् आदित्यम् शर्म मरुतामशीमहि तद्देवानामवो अद्यावृणीमहे येन्द्रो बर्हि सेदतु प्राचीनरश्मिमाहुतम् कृते न तद्देवानामवो अद्यावृणीमहे उपह्पये सुहवम्मारुतम् गणम्पा आपकमृष्पम् सख्याय शम्भुवम् राजस्पोषम् सौश्रवसाय धीमहि तद्देवानामवो अद्यावृणीमहे अपाम् पेरुम् यीवधन्यम्भरामहे देवाव्यम् सुहवमध्वरश्रियम् सुरश्मिम् सोममिन्द्रियम् य नीमहि तद्देवानामवो अद्यावृणीमहे सलेमतत्सु सलिताः सलित्वशो विश्वयेनोपरे तद्धेवा नामवो अद्यावृणीमहे ये स्थामनोऽर्यज्ञास्ते शृणोतनयद्वोः देवा इमहे तद्ददातन जैत्रम् कृतुम् रजिमद्वीरभद्यशस्तद्देवानामवो अद्यावृणीमहे महदद्यमहतामावृणीमहे वो ओ देवानाम्रहतामन यथा वसुवीरदातन्नषामहयद्देवानामवो अद्यावृणीमहे महो अग्नेः समिधानस्य शर्मण्यणा आगामित्रे वरुणे स्तस्तदे श्रेष्ठे एष्याम स वितुः सवि एम विदद्धेवा नामो अद्यावृणीमहे ये सवितुः सत्यसवस्य विश्वे एमित्रस्य ऊरते वरुणस्य देवाः तेऽसौ भगम्भीरवद्गोमदप्नोदधातनद्रपिणम् चित्रमस्मे सविता पश्चात्तात् सविता पुरस्तात् आत सवितोत्तरात्ता आत्सविता धरात्तात् आत। सवितानस्व तु सर्वदा आचिंसवितानो रासदाम् दीर्घमायुः नमो मित्रस्य वरुणस्य चक्षसे महो देवायतृतम् सपर्यत दूरे दृशे ए देवजाताय केतवे ए दिवस्पुत्राय सूर्या आयशंसत सामा आ च यत्र तत नन्नहा विश्वमन्यन्निविशते यते यदि विश्वाहापो अविश्वाहो दे एति सूर्याः न ते अदे एव प्रतिभो निवा आसते यदे एतशेभिः पथरैरथर्यसी प्राचीनमन्यदनुवर्ततेरजमुदन्येन ज्योतिषायासि सूर्य येन सूर्यज्योतिषापाससेनमो जगच्छ विश्वमुदियर्षिभानुना तेनास्मद्विश्वामनिरामनाहुतिमपामी पामपदुष्वप्न्यम् सु विश्वस्य हि प्रेषितो रक्षसि व्रतमहेणयन् उच्चरसि स्वधा अनु यदद्यत्वा आसूर्योऽपब्रवामहै तन्नो देवा अनुमंसेरदक्रतुम् तन्नोद्यावा आ तन्न आप इन्द्र शृण्वन्तु मरुतोऽहवं मा शूरे एभोमसूर्यस्य सन्दृशि भद्रम् जीवन्तो जनामशीमहि विश्वाः आत्ता सुमनसः सुरक्षसः प्रजावन्तो अनमेवा आकसः उद्यन्तन्तामित्रमहो दिवेदिभेज्यो जीवाः प्रतिपश्येमसूर्या महेद्योतिर्बिभ्रदन्ता विलक्षणभास्वन्तम् चक्षुषे चक्षुषे मयाः आरोहन्तम् रहतः पायसस्परिभयम् जीवाः प्रतिपश्येम सूर्य यस्य ते विश्वा भुवनानि केतुना प्रचेरतेनि च विशन्ते एवभिः अनागास्तेन हरिकेशसूर्याह्ना अह्नानो वस्य सा वस्य सोदिः शं नो अभवचक्षसा शं नो अह्नाशम्भालुनाशम् हिमाशङ्कृणेन यथा शमध्वमसद्द्रोणे तत्सूर्यत्रविनन्दे हि चित्रम् अस्माकम् देव उभयाजन्मने चतुष्पदे अदत्पिपदूर्जयमानमाशितम् तदस्मे शयोरपोदधातन यद्वो ओ देवाश्च अरा आवायो नो अभिलुच्छु नायते तस्मिन् तदेनो वस बोनिधेतन अस्मिन्न इन्द्र कृत्सुलो यशस्व ऋषिमेव विक्रन्दसिप्रावसातरे यत्र गोषा आता दृष्टितेषु खादिषु विश्वक्पतन्ति नित्यवो दृशाह्ये स स्याम ते जयतः यथा आ वयमुश्मसि तद्वसो कृति यो नो दास आर्यो ओ वा पुरुष्टुता दे एव इन्द्रयुधयेषिके एतति अस्माभिष्टे सुषहा आसन्तु शत्रवस्तया आभयम् तान्मनुयामसङ्गमे यो दभ्रेभिरहव्यो यश्चर्भिर्यो अभीके एवरि गोविन्द्रशाह्ये तम्बिखादे सस्तिमध्यश्रुतम् नरमर्वाञ्चमिन्द्रमवशेखरामहे सुरृदम् हि त्वा महमिन्द्रशुश्रवानानुदम्बुषभरध्रचोदनम् प्रमुञ्च स्वपरिगुत्सा आदिहागैकिमुत्वा वामुष्टयोर्बद्ध आसते यो वाम् परिज्ञमा सुहृदश्विना रथो दोषामुषा सोऽहव्यो हविष्मता शश्वत्तमामिदम् वयम् पितुर्ननामसुभवम् हरामहे चोदयतम् सोदृताः पिन्वदन्पुरम् दुश्मसै यशसम् भागम् कृणुतन्नो अश्विनाशो भन्नचारुम्सुनस्कृतम् अमायुरश्चिद्धवतो जुवम् भगो नाशोश्चिदपिताराः पवस्यचित् अन्धस्य चिन्ना सत्याकृशस्यचिद्युवामिता आहुर्भिषजाचित् युवञ्च्यवानम् सरनेयथा रथम् युवानम् च रथा चरक्षतोः इष्टौग्यमोहसुरभ्यस्पति विश्वेतावाम् सवनेषु प्रवाच्या प्राणावाम् वीर्याप्रभ्रवाजनेथोद्भिजरामयो तावान् नुनव्यापवसेतरामहेयन्नासत्याश्रुतरिर्यथा ददत् इयम्बा आ मह्ये शुगतम् मे अश्विना पुत्रा ये एव पितरा मह्यम् शिक्षतम् अनाः विलग्नाः असजात्या मतिः पुरा तस्याः अभिशस्तेरवस्कृतम् युवं वृथे एनविमदाय शुवंजोः पुरमित्रस्य अगच्छत पुरन्धरे युवं वन्दनमृश्यतां सत्यो विश्वमेतपे कृषणा गुहा आहितमुदैरयतम् अमृवां समश्विना युव न्वन्तम् चक्रशुः सप्तवध्रये युगम् श्वेतम् वेदवेश्विनाश्वम् नवभिर्वाजैर्नवती च वाजिनम् वयत्सखम्भगम् न दुर्भ्यो हव्यम् मयोभुवम् राजानावतिते कुतश्च नोः अश्नोति दुरितन्न किर्भयम् पुरो रुद्रवर्तनीश्चकुरश्विना यस्य योगे दुहिता जायते दिव उभे अहनि सुदिनेपतः भक्तिरीया आतञ्जयुषाभिपर्वतमपिन्वतम् शजवे ए धेनुमश्विनावृत्तिका मन्दराद्यवंशति एभिर्गसितामण्डलम् एतम् रां स्तोमममश्विनाव कर्मातक्षामभृगबोधरथम् न्यर्रक्षामयोषणान्न मर्ये नित्यन्न सोमन्द्रयुन्द्रधानाः सैयान्तम् कुहकोहबान्नराभृति द्युगन्तम् सुविदाय भूषति प्रातर्याबाणम् विध्वम् विषे विषेवस्तोस्थोर्वहमानन्धियाश्री कुहस्विद्दोषाकुहवस्तोरश्विनागुहावित्तम् करतः कुहोशतुः को वाहंश युत्राभिधवे एव देवर्यन्न योषा आकृणुते ततस्थः रादर्जरे चेरणे वरावजावृस्तोर्वस्तोर्यजरागच्छसो गृहम् कस्य ध्वस्रा भवतः कस्य वानराराजपुत्रेव सवनामगच्छथः युवा मृगेव वारणामृगण्यवो दोषावृष्टोर् अविशानिह्वयामहे युगम् भवत्रा आमृतसा जुह्वते नरे सञ्जना आयवस्पति युवाम् मघोषा पर्यश्विनायती राज्ञ ऊचे दुहिता वृच्छे वा नूतम् मे अन्ध उत भूतभक्तवेश्वामर्वते उता युवम् कवीष्ठः पर्यश्विना रसंविशो न पुत्सोर्नशायसः युवोर्हमक्षापर्यश्विनामध्वासा भरतनिष्कृतम् न योषणा युगम्भुज्युवश्विनावशम् युगम् शिञ्जारमुशनामुपाहारः युगोरराहा वा परिदक्षणासते युवोरहमसा सुरवाचके युवम् हक्षम् युवमश्विनाशयम्बने वसिन्धवोस्मा अह्नेपतिपनम् जीवम् रुदम् तिविमयन्ते अध्वरे दीर्घामनुप्रसितिम् देति युन्दराः पावम् पितृभ्योज इदम् समेतिदेव यः परिभ्यो जनयः परिष्वजेः ततस्य विद्मदुष्प्रभोचतयुवाहयद्युवत्याः क्षेतियो निषु प्रियो श्रियस्य ऋषभस्य नेतिनोः गृहङ्गमेमाश्विना ददुष्मसि आवामगन्सुमतिर्वा आदिनीव सोऽन्यश्विना हृत्सु कामा अयम् सदा अभोदम् गोपामिथुला शुभस्पति प्रिया अर्य यमुनो दुर्याङ्कशीमहि तामन्दसानामनुषो द्रोण आधत्तम् रयिम् सहवे रम्बस्य कृतम् तीर्थम् सुप्रपाणं शुभस्पति स्थाणुम् वचेष्ठाम् पदुम्मतिम्हतम् क्वस्मि तद्यकतमास्पश्विना आदिक्षुतस्रामा आजयेते शुभस्पतिः एन्निजेमेकतमस्य जिग्मदुर्विप्रस्य भाजमानस्य वा गृहम् सवाहनृत्यम् पुरुहोदमुख्या अमृतम् त्रिचक्रम् सरनागनिग्मदम् पर्यजमानम् विदध्यम् सुकृतिभिर्भयम् जुष्टा उषसोहवामे प्रातर्युजन् रासत्याधितिष्ठतः प्रातर्यावाणम् वसुवाहनम्रथम् विशोये न गच्छतो यज्वलेर्नरागीरेश्चिद्यज्ञम् गोत्रमन्तमश्विनाध्वर्युम् वा मधुपाणिम् सुहस्यमग्निधम् वा विप्रस्य वायच्छतो मधुपेयमश्विना हस्ते एव सुप्रतरं लायमस्यभूषण्यवप्रभरास्तोमोऽस्मै वाचा विप्रास्तरतवाचमर्योनिरामयजितसौ म इन्द्रम् भो हे एरगाम्ब शिक्षासखायम् प्रभोय दरितर्जाहरमिन्द्रम् ओसन्नपूर्णम् वसुनान्निरष्टमाच्या आपयमखदेया आयशूरम् हिमम् गत्वा आमघवन् भोजमाशीहिमा आशिषयन्ता आशृणोमि अप्नस्व देममधीरस्तु शक्रपसुविदम्भगमिन्द्राभरानः आम सत्येऽस्मिन् रसन्तस्थाना विह्वयन्ते समीपे अत्रायुजम् क्रुधे यो हविष्मान्नासुन्दताम् वष्टिशोराः धनम् न स्पन्द्रम् बहुनय्यो अस्मै तीव्रान् सोराम् आसुनोति प्रयश्वान् तस्मै शत्रू अम् सुतुकान् प्रातरन् नो निः स्पष्ट्राम् युवति हन्तिभृत्रम् यस्मिन्मयम् दधिमाजम् समिन्द्रेज शिश्राय मखवागावमस्मे आराक्षित्सम्भयतामस्य शत्रुन्यस्मै द्युम्नाजन्यानमन्ताम् आराच्छत्रुमवबाधस्वरूरमुग्रो यः अस्मेधेयमद्गोमदिन्द्रपृथीधियम् जरित्रे वाजरत्नाम् प्रयमन्तरवृषसवासो तीव्राः सोमा बहुलान्ताः सहिन्द्रम् नाहदामाननम् मघवानियम् सन्निसुन्दतेवहति भोरिवामम् उत प्रहामतिदेव्या आजयाति कृतम् लक्ष्मघ्नेऽपिनोति काले यो देवगाः मोनधना आरुणद्धि समित्तम् राजा सृजति स्मृधावारे गोभिष्टरेमा मतिन्दुरे वायवे एन क्षुतम् पुरुहूतविश्वा अयम् राजभिः प्रथमाधनान्यस्माके एन भुजनेनाजयेम बृहस्पतिर्नः परिपातु पश्चादुरोत्तरस्मादधराजगायोः इन्द्रः पुरस्तादुतमध्यतो नः सखासुभ्रो वरिवृणोतु अच्छा आ महीन्द्रम् मदय सर्वः सध्रे एर्विश्वाषदा परिष्पजन्ते जनयोपतिम् मर्यन्न शुन्धुम् मघवा न मूतये न घात्वदृगप्रवेति मेम नस्पे इत्कामम् राजे एवधिपरिष्यस्मिन् सु सोमे एव पानमस्तु ते विषोरुदिन्द्रो अमरे रुदक्षुतः स इद्राजो मगभाव तस्ये दिमे प्रवणे सप्तसिन्धकोपयो वर्धन्ते वृषभस्य सुश्मिनाः वयोनवृक्षम् सुपलाशमासदम् सोमास इन्द्रम् प्रैषामने एकंशवसादरिद्विदद्विदत् स्वा अर्मनवेज्योतिरार्यम् कृतन्नश्वे विचिनोति देवने संवर्गन्मखवासूर्यञ्जयत् अतत्ते ए अन्यो अनुवीर्यम् शकन्नपुराणो मखवन्नोत नूतनः विषम् विषम् मखवापर्यशायतजनान्थेनाः अवचाकसदृशाः यस्याः शक्रः सपने धुरण्यति सती सोमैः सहदे पृदन्यतः आपो न समक्षदं सोना रीन्द्रम् कुल्या इव ह्रदम् वर्धन्तिभिप्राभो अस्य वृष्टिर्दिव्ये न ददानुनाक्रुद्धपथजग्रदस्वायो हर्यपत्ने अवः स सुन्दते मघवा जीरदानवे विन्दज्यो धर्मलवे भविष्पते <Sess> उज्जा सुदुखाः परशुर्ज्योतिषा विनो पूजा तस्य सुघा आपुराणवत् विरोभानुनाश विस्वा अर्णशुक्रम्पतिः गोभिष्टरे मामलिन्दुवेञ्जवे एन क्षुधम् पुरुहूत विश्वा अयम् राजभिः प्रथमाधना अन्यस्माकेनादेव बृहस्पतिर्नः परिपातु पश्चादुतोत्तरस्मादधराजघायोः इन्द्रः पुरस्ता आदुतमध्यतो रः सघासखिभ्यो वरिव कृणोतु आयात्मिन्द्रः स्वपतिर्मदा आयजो धर्मणादो तु जानस्वविष्मान् प्रत्वक्षाणो अतिविश्वासः अंस्य पारेण आहता वृष्ण्येन सृष्ठा वारथस्वयवाहरि एते मिम्यक्षवज्रो नृपतेगवस्तौ शीभम् राजन् सुपथायाह्यर्वाङ् वर्धामते पुरुषो वृष्ण्याहि ेन्द्रबाहो द्रपदिं वज्रबाहुमुग्रमुग्रासुस्तविषास एनम् प्रत्मक्षसम् वृषभम् सत्यसूक्ष्ममेमस्तत्रासमादो वहन्तु देवापतिन्द्रोणसा चंसे एतस मूर्धस्कम्भौ तरुण आवृषायसे मोयः कृष्मसङ्गृपायत्ते अप्यसो यथाः के निपानाः विनो वृते नस्नेम सून्याहिशंसुशं स्वाशिशम्भरमायाः शो विनाः ेषास्मिन्नासत्सि बहिष्य नाश्यादपपात्राः पृथक् प्रायम् प्रथमा देवहो तयो कृतश्रमस्याः दुष्टराः नजे शेकुर्यज्ञियान्नावमारुहमीर्मैवतेऽन्यषण्ठके पयः एवैव पाकपरे सन्तु दूर्ध्योऽश्वा येषाम् दुर्युजा इत्थाय प्रागुपरे सन्ति रावणेः पुरोणि यत्र वयुना गिरीङ्ग्रज्राम् अदारयद्योः क्रन्ददन्तरिक्षाणि कोपयत् समीचीनेयति विष्णः पीत्वा मद उक्तानि शंसति इमम् विभर्मिसुकृतन्ते अङ्कुश्छुजाः अस्मिन् सुते सवने अस्मोप्यम् सुत इष्टो मघवन् बोध्याभगः गोभिष्टरेवामतिम् दुरे वाञ्जवे एन क्षुतम् गुरुहृतविश्वा वयम् राजभिः प्रसमाधनाम् भृजनेनाजय बृहस्पतिर्नः परिपातु पश्चादुतोत्तरस्मादथराजकायोः इन्द्रः पुरस्तादुतमध्यतो नः सकाशभिभ्यो हरिवक्ृणोतु दिवः परिप्रसमञ्जज्ञे अग्निरस्मद्वितीयम् परिजातवेदाः तृतीयणाय समिन्धाः स्वाधीः विद्मातेः अग्नेत्रेधात्रयाणि विद्मातेधामविहृता पुरुत्रा विद्मातेनामपरमङ्गुहायद्विद्मानमुत्संयत आजगन्धा समुद्रेत्राः द्रमणाः अप्स्वा अन्तर्निरक्षाः ईथे दिवो अग्न तृतीये एत्वारसिलस्थिराम् समपामुपस्थे ए महिषा अवर्धन् अक्रन्दलग्निस्तनयन्निपद्योः क्षाभारेरिहद्वेरुधः समञ्जन् सद्यो जज्ञानो विहि विद्धो अक्षदारोदसीभानुनाभाच्छन्दः श्रीणामुदारो धरुणो ओरजीणामनीषाणाम् प्रार्पणः सौरघोराः प्सुराजाभिधात्यग्र उषसा आभिधानः विश्वस्य अपृणायमानः वीरुपराजञ्चमयन्धा आवको अरति सुमेधामर्ते एष्मग्निरमृतो निधा आज यत्षम्भरिभ्ररुच्छुक्रेण शोचिशाद्यामिनक्षन् णो रुग्द्यौ दुर्म श्रियेरुचानः अग्निरवृतो अभवद्भयो हृर्यते नन्द्योर्जनयत्सुरेताः यस्ते अद्य गुणवद्भद्रशोचे भूवन्दे एव घृतवन्तमग्ने कृतन्नयप्रतरम्बस्यो अच्छाभिसुन्नन्देव भक्तञ्जविष्ठ आतम्भजसौ श्रभसेष्वग्नौक्थाभरस्या प्रियः सूर्ये प्रियो अग्नाभवात्युज्जातेन भिनदुज्जनि त्वैः त्वामग्ने यजमाना अनुद्योन्विष्वा वसुतधिरे वार्याणि त्वया सहद्रविणमिच्छमानाव्रजङ्गो मन्दमुषिरोऽपि वूरुः अस्ताव्यक्तिर्नरां सुषेवो अद्वेषेद्यावाः पृथिवे मदेवाः धत्तरस्मे सुवीरम् इति सप्तमाष्टकेऽष्टमोऽध्यायः